अथ षष्ठम् दशकम् एवम् चतुर्दश जगन्मयताम् गतस्य पातालमीश तव पादतलम् वदन्ति पादोर्ध्वदेशमपि देवरसातलम् ते गुल्फद्वयम् खलु महातलमद्भुतात्मन् जङ्घे तलातलमथोऽसुतलम् च जानू किञ्चोरुभागयुगळम् पितलातले द्वे क्षोणीतलम् जगनमं बरमङ्गनाभिर्वक्षश्च चक्रनिलयस्तव चक्रपाणे ग्रीवामहस्तव मुखम् च जनस्तपस्तु फालम् शिरस्तव समस्तमयस्य सत्यम् एवम् जगन्मयतनो जगदाश्रितैरप्यन्यैर्निबद्धवपुषे भगवन् नमस्ते त्वद्ब्रह्म विश्वकन्द छन्दांसि के शवघनास्तव के शपाशाः उल्लासिचिल्लियुगलम् द्रुहिणस्य गेहम् पक्ष्माणि रात्रिदिवसौ सविता च नेत्रे निःशेषविश्वरचना कटाक्षमोक्षः कर्णौ दिशोऽश्वियुगळम् तव नासिके द्वे लोभत्रपे च भगवन्नधरोत्तरोष्ठौ मायाविलासहसितम् श्वसितम् समीरो जिह्वाजलम् वचनमीश शकुन्तपङ्क्तिः सिद्धादयः स्वरगणामुखरन्ध्रमग्निर्देवाभुजास्तनयुगम् तव धर्म देवः पृष्ठम् त्वधर्मैह देवमनः सुधांशुरव्यक्तमेव हृदयाम्बुजमम् बुजाक्ष कुक्षिः समुद्रनिवहा वसनम् तु सन्ध्ये शेभः प्रजापतिरसौ वृषणौ च श्रोणिस्थलम् मृगगणाः पदयोर्नखास्ते हस्त्युष्ट्रसैन्धवमुखागमनम् तु कालः विप्रादिवर्णभवनम् वदनाब्जबाहुचारूरु युग्मचरणम् करुणाम् बुधेते संसारचक्रमयि चक्रधर क्रियास्ते वीर्यम् महासुरगणोऽस्थिकुला निशैलाः नाड्यः सरित्समुदयस्तरवश्च रोम जीयादिदम् वपुरनिर्वचनीयमीश ईदृग्जगन्मयवपुस्तव कर्म कर्मावसानसमये स्मरणीयमाहुः तस्यान्तरात्मवपुषे विमलात्मने ते पातालयाधिप नमोऽस्तु निरुन्धिरोगन् इति षष्ठम् दशकम्